नमो नमः नमो नमः नमो नमः सर्वेषां स्वागतं नमो नमः स्वागतं सर्वेषाम् नमो नमः नमो नमः अस्तु आरम्भं कुर्मः राधा भगिनी प्रार्थनया आरम्भं कुर्मः वा आं भगिनि हरिः ओम् नमो नमः नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्ससुतिर्भोक्ता तुप्तम् गीतामृतम् महत् शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनं। योगिभिर्ध्यानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकैकनाथम् अस्तु धन्यवादाः पुनः एकवारं स्वागतम् अद्य नूतनः विषयः वयं नूतनविषयस्य आरम्भं कुर्मः परन्तु अद्यदिने अहं चिन्तितवती अस्माकं कक्षायाः आरम्भ आरम्भे वयं वयम् एका पठा एका कथां पठामः अन्तिमे अपि पुनः एकवारम् एका कथा इति आरम्भे एका कथा स्क्रीन स्क्रीन् शेर् मी, पश्यन्तु सर्वे नमो नमः जयन्ति भगिनी नमो नमः क्षम्यतां न चिन्ता मास्तु नमो नमः अम्बिकापति महोदय नमो नमः अमुक्तवती उक्तवती अद्य दिने सत्रस्य आरम्भम् अपि वयं कथा माध्यमेन एव कुर्मः हा आरम्भे अपि कथा अन्तिमे अपि कथा इति मम चिन्तनं पश्यामः एका लघुकथा अत्र अस्ति स्क्रीन् शेर् करोमि लघु एव कथा परन्तु महती कथा इति अर्थपूर्णता यत्र दृश्यते तस्मात् अहं चिन्तितवती आरम्भे तस्य अध्ययनं भवेत् अस्तु भारतमहोदय भवान् आरंभं करोति वा भा? भगिनी कृष्णस्य <coughs> एकः एव श्रोता एकः एव श्रोता कस्य श्रीकृष्ण एव श्रोता हा पश्य पठतु कश्चन पण्डितप्रवरः प्रतिदिनं भगवद्गीताप्रवचनं करोति स्म किन्तु तस्य चिन्ता नाम श्रोतारः न्यूनाः इति चित् चित् चित् त्रि त्रिचतुरा एव श्रोतृत्ता स्म तत्र hmm. कदाचित सह hmm. भारती श्रीमता चंद्रशेखरभारतीस्वा आगत्वान आगतवा अवसरे तयोहो संभाषण इत्वम प्राचलत् स्वामिनः ओके स्वामिनः अपृच्छ पृच्छन् मैलापुरसंस्कृतमहाविद्यालयस्य प्राण प्राङ्गणे प्राङ्गणे भगवद्गीताप्रवचय प्रवचनं करोति ननु भवान एव hmm. पण्डितेन उत्तरं दत्तं hmm. परन्तु इमं कार्यक्रमम् इदानीं स्थगयितुम् इच्छामि किमर्थम् तावत्पर्यन्तं भवान उत्तम उत्तमप्रकारेण अ पठित उत्तम आ, उत्तम तत कशन पंडित प्रवर कथा का वी अथा कथायां कि प्रतिदिन भगवदीतावचन पंडित हां करोती। परंतु तत्र, ये परे शो एतादृशाः जनाः न्यूनाः श्रोतारः न्यूनाः श्रोतारः न्यूनाः तेषां सङ्ख्या अल्पसङ्ख्या अधुना त्रिचतुराः एव त्रिचतुरा इत्युक्ते त्रि फोर् इत्युक्ते न त्रिचतुराः एव श्रोतृत्वेन उपस्थिताः भवति भवन्ति स्म तत्र जस्ट् त्रि फोर् आडियन्स् लिसनर्स् कदाचित् सः एके दिन किम् अभवत् तत्र चन्द्रशेखरभारतीस्वामी इति एकः सिद्धपुरुषः ज्ञानीपुरुषः हा तज्ञपुरुषः इति सः पण्डितः नाम दर्शनार्थं तत्र गतवान् तथा द्वयोः मध्ये एकं सम्भाषणं प्रचलत् आसीत् तत् सम्भाषणम् स्वामिः पृच्छति मैलापुरसंस्कृतमहाविद्यालयस्य प्राङ्गणे प्राङ्गणे इत्युक्ते तत्र कोर्टियार् इति भगवद्गीता प्रवचनं करोति ननु भवानेव तत् भवान् पण्डितः तत् तत्र महाविद्यालयस्य प्राङ्गणे प्रवचनं करोति खलु इति सः पृच्छति स्वामी तदा पण्डितः उत्तरं ददाति परन्तु इमं कार्यक्रमम् इदानीं स्थगयितुम् इच्छामि स्थगयितुं तुमुन प्रत्यय किमिच्छामि कार्यक्रमं स्थगयितुम् इत्युक्ते अधुना अहं प्रवचनं न कर्तुम् इच्छामि इतः परः अहं प्रवचनं न कर्तुम् इच्छामि इति पण्डितः वदति किमर्थम् इति प्रश्नः स्वामी पृच्छति किमर्थम अधुना इति किमर्थम् इति प्रश्ने सति उत्तरं किं पश्यामः धन्यवादः आगस्ट् भारतमहोदय अधुना ओगस्ट् महोदय अग्रिमं किमर्थम ततः आरभ्य पठति वा भगिनि क्वचनः अस्ति पण्डिप्रवरः मीन्स् का भगिनि तत्र अधिकप्रकारे प्राचुर्येण तत्र योग्यता दृश्यते इत्युक्ते सामान्य पठनं केनचित् कृतम् इति न तत्र अधिकतया प्रगल्भता तत्र ज्ञानी इति वक्तुं शक्नुमः अग्रे अधिकतया okay. एकी एकी एकीपण्डितः एकपण्डितः आमामां आम, आम, आम। परन्तु oh. तत् अधिकतया प्रचुर अस्ति अभ्यासे oh. वा तत्र अध्ययने वा अध्यात्मविषयकविद्यायाम् इति अधिकत्वेन तत्र प्राचुरियम दृश्यते इति तत्र ननु अस्ति न भगिनी ननु कीन्स् ननु इत्युक्ते ननु इति अव्ययं तत, तत ननु इति एवं खलु करोति ननु इति तत् अव्ययरूपेण आगच्छति ओके सम्भाषणे तत् खलु वा ननु वा एतेषां प्रयोगाः बहुवारं भवन्ति इति ओके भगिनि धन्यवादः अस्तु अस्तु आगस्ट् पठतु किमर्थम् अहं पठामि किमर्थम् आदौ श्रोतारः आसन् mm. गच्छता कालेन श्रोतॄणां संख्या mm. न्यूना जाता mm. अधुना त्रयः चत्वारः वा श्रोतारः भवन्ति mm. अतः एव अयं प्रवाचनस्थगननिर्णायः mm. एवं गीताचार्यः ज्ञायते ननु भवता mm. आम् स तु भवान् श्रीकृष्णः mm. तस्य श्रोतारः कीयन्तः आसन् Hmm. एकः एव अर्जुनः नाम hmm. गीताचार्यस्य गीताचार्यस्य श्रीकृष्णस्य एकः एव श्रोता hmm. भवतः पुत्रयः चत्वारः वा श्रोतारः सन्ति hmm. भवतः गीताप्रवचनश्रोतॄणाम् सङ्ख्या गीतावर्यस्य सङ्ख्यायाः अपि अधिका वर्तते अतः गीतायाः प्रवचनस्य अनुवर्तते कहा अनुवर्तते कः क्लेशः अनुवर्तने कः क्लेशः अधुना किम् अभवत् अत्र पश्यन्तु वदति अहम् प्रवचनस्य कार्यक्रमम् थगैतु इच्छामि इतः पर अहम् न कर्तुम् इच्छामि इति पण्डितः वदति स्वामी पृच्छति किमर्थम् इति तदा सः उक्तवान् आदौ षष्ट्यधिकाः षष्ट्यधिकाः इत्युक्ते सत्यम् मोर् देन् श्रोतारः आसन गच्छता कालेन गच्छता कालेन इस् वेरि इम्पोर्टेण्ट् फ्रेज् इन् इत्युक्ते अज् टैम् पासेस् गच्छता कालेन श्रोतॄणाम् अत्र पुनः एकवारं सर्वे पश्यन्तु श्रोतॄणां तत्र त ऋकार दीर्घरुकारः अस्ति तत् श्रोतृशब्दस्य षष्ठी बहुवचनान्तरूपाणि दीर्घरुकारः श्रोतॄणाम् इति श्रोतॄणां सङ्ख्या न्यूना जाता हा गच्छता कालेन तत्र अल्पसङ्ख्याङ्कः एव तत्र श्रोतारः न्यूना न्यून न्यूनत्वं दृश्यते सङ्ख्यायाम् इति अधुना त्रयः चत्वारः वा श्रोतारः भवन्ति तत्तु सः उक्तवान् त्रयः वा चत्वारः एव श्रोतारः अतः एव अयम् प्रवचनस्थगननिर्णयः इत्युक्ते पण्डितः वदति यतो हि तत्र प्रवचनं तु तत्र सम्यक् रीत्या प्रचलति परन्तु न्यूनत्वम् दृश्यते श्रोतारः सङ्ख्या अधुना श्रोतारः त्रयः वा चत्वारः एवम् दृश्यते अतः अहम् स्थगयितुम् इच्छामि अहम् अग्रिमे प्रवचनम् न दास्यामि इति तस्य विचारः सः उक्तवान् तत्र अधुना प्रश्नः पृच्छति गीताचार्यः ज्ञायतेननुभवता भवता अत्र भवान् शब्दस्य तृतीया अत्र अस्ति कर्मणि प्रयोग सो गीताचार्यः भवान् जानाति वा गीताचार्यः अत्र गीताचार्यः इत्युक्ते कः गीतायाः आचार्यः गीतायाः आचार्यः कः भगवा श्रीकृष्ण यीता उूल भगवान्दृष्ण गीता आचार्य भगवान्दृष्णस कियोताये कति तक प्रश्न कियोता कतिता आसन् तदा एकः एकः एव एव तत्र, युद्ध उतवान एक महाभारतयुद्धप्रसंगे रणभूम्या तकता अर्जुन कृते अीता न आस अुधन आसी दुशाससन आसे धृत धारतराष्ट्रसन पर अर्जुनस्य कृता कृते एव गीता एकः एव श्रोता गीताचार्यस्य श्रीकृष्णस्य एकः एव श्रोता भवतः तु त्रयः चत्वारः वा श्रोतारः सन्ति भवतः गीताप्रवचनश्रोतॄणाम् सङ्ख्या गीताचार्यस्य सङ्ख्यायाः अपि अधिका वर्तते भवतः प्रवचने त्रयः वा चत्वारः श्रोतारः इत्युक्ते गीताचार्यस्य संख्या गीताचार्यस्य श्रीकृष्णस्य सङ्ख्या का एकः एव श्रोता इत्युक्ते तव प्रवचने भवतः प्रवचने गीताचार्यस्य सङ्ख्यायाः अपि अधिका श्रोतारः अतः गीतायाः प्रवचनस्य प्रवचनस्य अनुवर्तने अनुवर्तने इत्युक्ते पुनः पुनः तत्र पुनः पुनः तस्य अनुवर्तनं भवति पुनः पुनः सः वदति इति कः क्लेशः तत्र काहानी यदा चत्वारः वा त्रयः श्रोतारः तत्र संती तदा अनुवर्तने काहानी, हानि क्लेशः अस्तु एतपर्यन्तम् अधुना अन्तिमम् अन्तिमं, अन्तिमं। गीताञ्जलिभगिनी भवती पठति वा अस्तु ततः आरभ्य धन्यवादः ओगस्तु धन्यवादः अस्तु भवताम् आज्ञा शिरोधार्या मम गीतायाः hmm. प्रवचनम् अवश्यमेव अनुवर्तयिष्यामि सम्भाषणं समाप्य सः पण्डितः आचार्यान् नमस्कृत्य ततः निर्गतवान् गीताप्रवचनं hmm. तु यथा पूर्वम् अनुवृत्तम अनुवृत्तम् इति अवृत्ति अब अधुना पंडित तंडिता तस् मन से स्पष्टता शिरोधारिया मम शिरोधारिया तथम क्र मोस्ट ओबीडिएंटिरो मस्तक हाँ तत्व अहम शिसी स्थापया आज्ञा गीतावचनम अवश्यमी त्यल अवर्त्या संभाषण समाप्य सर पंडित आचार्या नमस्कृत तत निर्गत अंका यदा गीताचार्यस्य श्रीकृष्णस्य एकः एव श्रोता तत्र अष्टादश अध्याया सर्वेषाम् अध्यायानां सह निरूपणम् कृतवान् एकः एव श्रोता पुरतः आसीत् तस्मिन् समये मम समीपे तु त्रयः वा चत्वारः श्रोतारः सन्ति ततः अहमपि मनसि किमपि क्लेशः वा पीडा मम मनसि न भवेत् अहमपि गीताप्रवचनं यथापूर्वक् यथापूर्वं तस्य अनुवर्तनं करोमि इति सः उक्तवान् आचार्यान् नमस्कृत्य नमस्कृत्य ल्यप्रत्ययं नमस्कारं कृत्वा नमस्कृत्य नमस्कारं कृत्वा ततः निर्गतवान् इति अधुना गीताञ्जलि भगिनी कथ स्वशब्दै वाक्यद्वयं वाक्यं वदति वा भी अच्छ विषयं इफ् यु वाट् टु कन्वे वेदर् इट् इस् ए सिङ्गन् पर्सन् हौ मेनि इट् मे बि दजन्ट् मेटर् इफ् यु वाण्ट् टु कन्वे जस्ट् कन्वे इट् सत्यं तदा कः लाभः अस्ति अपि तस्य तर लाभ कनसी अनर्तन अस्माक मनसी अष्ट धारणा गीताया विषे वक्त पठन वटन अंगीकरण अंगीकरण नव खलुन पठनेन वा पाठनेन पुनः पुनः यदा अनुवर् भवति तदा एव शनैः शनैः गीतायाः धारणाम् भवितुमर्हति अतः यदि सङ्ख्या न्यूना तर्हि किमपि क्लेशः वा तत्र पीडा न भवेत् इति विचारः स्पष्टमस्ति वा स्पष्टमस्ति अधुना।, अधुना अधुना अस्माकम् अभ्यासं प्रति वयं गच्छामः रमा भगिनी नमो नमः अस्तु अस्तु अधुना अस्माकं नूतनः विषयः वयं लट् लकारोट् लकार पठितवन्तः अधुना तत् क्रमेण तत्र एकः विषयः मध्ये आगच्छति परन्तु तत् अनन्तरं वयं पश्यामः हा अधुना पश्यन्तु यदा सर्वे शृण्वन्तु अधुना स्क्रीन् शेर् मास्तु हा यदा अहं वदामि सः गणयति सः गणयति इत्युक्ते किं सः गणयति इत्युक्ते कोपी वक्तुं शक्यते अन्म्युट् कृत्वा गणनं करोति संज्ञा गणनं गणनं करोति इत्युक्ते कौण्टिङ्ग् इति अधुना जयन्ति भगिनी उक्तवती गणयति इत्युक्ते गणनं करोति गणयति इत्युक्ते गणनं करोति जयन्ति भगिनी उक्तवती अधुना राधा भगिनी अहं वदामि सः गच्छति इत्युक्ते हा परन्तु यथा उक्तवती गणनं गणनां करोति तथा वा गणनं करोति तथा गच्छति इति सः गच्छति इति कथं वक्तुं शक्नोति भवती गबनम... अधुना अहं वदामि राधा भगिनी सः पठति पठनं करोति सः पठनं अधुना अहं सह सः वन्दते वन्दनं करोति सः वन्दनं वन्दनं किं भवति वन्दनं करोति करोति इति आत्मनेपदीरूपं वा एकवचनं वन्दते इति कुरुते इति भवति तत्र पश्यतु सः वन्दनं सः वन्दते इत्युक्ते सः वन्दनं कुरुते करोति क्रू धातु क्रू कर्णे धातु उभयपदी परस्मैपदी करोति इति रूपम् आत्मनेपदी कुरुते इति रूपं ते इति तत् कुरुते इति रूपं भवति लोट्लकारे अपि करोतु इति परस्मैपदीरूपं कुरुताम् इति आत्मनेपदीरूपं तत्र वन्दनं सः वन्दनं कुरुते इति भवति अधुना पुनः एकवारं स्तः लोकते इति वदामि चेत् लोकते लोक अवलोकन् इत्युक्ते तु सि सि ओके लोकते ओके लोकनं करोति हा वा लोचनं वा दर्शनं करोति इति अर्थदृष्टा अर्थ तथैव अर्थदृष्ट सम्यक् सम्यक् सः खादति खादनं करोति सः खादनं करोति उत्तमम् उत्तमं धन्यवादः धन्यवादः इति अस्ति क्रियापदस्य विभज्यप्रयोगः क्रियापदस्य विभज्यप्रयोगः इत्युक्ते तत्र क्रियापदं क्रियापदं स्वीकृत्य तस्य विभाजनं विभाजनं कथं नामपदं सहाय्यक्रिया क्रियापदं विक्रिया साहाय्यक्रिया इत्युक्ते द असिस्टिङ्ग् हा करोति कुरुते एवं सर्वं सहायकक्रिया नामपदम् अधुना वन्दनं गमनं इति सर्वं ल्युट् प्रत्ययान्तरूपाणि सन्ति ल्युट् किञ्चित् लिखित्वा अपि व्याकरण अंशः एषः परन्तु अस्माभिः तत् ज्ञातव्यम् इति अस्ति अतः लिखित्वा दर्शिष्यामि तत् ल्यूट् प्रत्ययः अस्ति ल्यूट् ल्यूट् प्रत्ययस्य विशेषता का ल्यूट् प्रत्यय नित्यनपुसकलिङ्गि एव आगच्छति नपुसक इति अधुना वयं दृष्टवन्तः वन्दनम् अनन्तरं गमनम् एवं सर्वं ल्युट् प्रत्ययान्त खादनम् अत्र गमधातोः कृते गमनम् इति अभवत् वन्दकृते वन्दनम् अभवत् किमर्थं तत्र ल्युट् प्रत्यय किम् तत्र लकार अपगच्छति ल अपगच्छति ट अपि अवगच्छति यु इति रूपम् अवशिष्यते तत्र एकं सूत्रमस्ति युवरनाकौ तेन यू स्थाने अन् इति आदेशः अत्र सर्वेषु स्थलेषु वन्दनं न दृश्यते गमनं न दृश्यते एवं सर्वं खादनं न दृश्यते लेखनं पठनं तत्सर्वम् अन् आदेशभूत्वा आगच्छति अस्माभिः तत् केवलं स्मर स्मरणार्थं तत्र ल्यूट इति प्रत्यय ल्यूट प्रत्ययस्य स्थाने व्याकरणदृष्ट्या तत् अन् इति आदेशः भवति अतः तत् नामपदं यत भवति तत् अधुना लिखि दृष्ट दर्शय की तत्म अवगमन अभवत अत्यय आगमन होती अु अवशिष्टूप तरह अवती उद्घाटाट कोऽपि वदतु उद्घाटनम् उद्घाटयति उद्घाटनं करोति प्रदर्शयति प्रदर्शनं प्रदर्शनं करोति इति विषयः अस्ति क्रियापदस्य विभज्यप्रयोग तत् वयम् अधुना पश्यामः पुस्तकं प्रति गच्छामः क्रियापदस्य विभज्यप्रयोगः एकवारं दृश्यते स्क्रीन् दृश्यते भगिनि दृश्यते वा आम् आं भगिनि क्रियापदस्य विभज्यप्रयोगः अस्तु जण्टिभगिनी आरम्भं करोति वा क्रियापदस्य विभज्यप्रयोग एतानि वाक्यानि सावधानतया पठत एकनिमिषं मेनि स्क्रीन् ओके सावधानतया दृश्यते मेनि कृष्णः अर्जुनम् उपदिशति कृष्णः अर्जुनस्य उपदेशं करोति प्रबन्ध प्रबन्धत प्रबन्धतज्ञा प्रबन्धतज्ञा प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति प्रबन्ध <laughs> प्र, प्रबन्धतज्ञाः गीताव्याख्यानस्य <laughs> श्रवणं कुर्वन्ति एकनिमिषम् एवम् अत्र किम् अभवत् एक एकनिमिषम् वा अत्र किम् अभवत् अर्जुनम् उपदिशति तत् कम् अर्जुनम् कम् कम उपदिशति ुम् अर्जुनम् अधुना तत्र षष्ठी प्रयोग कृत्वा कथम् उपदिशति इत्युक्ते उपदेशं करोति अधुना षष्ठी उपयुज्य कृष्णः अर्जुनस्य उपदेशं करोति प्रबन्धतज्ञः गीताव्याख्यानस्य श्रवणं कुरु कुर्वन्ति इत्युक्ते व्या वाक्यपरिवर्तनम् आत्म समानः शये कापि भिन्नता नास्ति आशयः समानः परन्तु भेदः कुत्र वाक्यरचनायां भेदः इति सम्भाषणे अतीव उपयुक्तः पठतु रथम् इति स्वीकृत्य स्थापयति रथं स्थापयति स्थापनं करोति रथस्य स्थापनं करोति आम् रीम बेरीं वादयतु एकवारं न दृश्यते बेनि किञ्चित् नृश्यते बेनि बेरीं वादयति वादनं करोति बेर्याः वादनं करोति अत्र भेरी इति स्त्रीलिङ्गीकार इकारान्तपदं देनि अतः स्त्रीलिङ्गपदं तस्य षष्ठी विभक्तिः याः इति भवति हृदयं हृदयं विदारयति विदार विदारणं करोति हृदयस्य विदारणं करोति इन्द्रियाणि प्रेरयन्ति इन्द्रि प्रेरणं कुर्वन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति षष्ठि बहुवचनं खलु बिनिन्द्रियाणि सत्यं सत्यं कुरुक्षेत्रं प्रविशति प्रवेशं करोति कुरुक्षेत्रस्य प्रवे प्रवेशनं करोति प्रवेशं करोति इति प्रवेशं करोति सारी बेण् जयं जयम् उद्घोषयति उद्घोषयति जयम् उद्घोषयति उद्घोषणं करोति जयस्य उद्घो उद्घोषणं करोति सत्यम् उद्घोषणम् इत्युक्ते अनौन्स्मेण्ट् इति अत्र षष्ठिविभक्तिः अपि तत्र पश्यन्तु भगिनी भवती वदति वा तत्र पुल्लिङ्गी श्रीलिङ्गी कथमस्ति तत् सर्वेषां षष्टि विभक्ति हा वदतु रतम् इति नपुंसकलिङ्गपदम्बिनी अतः तस्य षष्ठी विभक्ति रथस्य इति एव ऐ मीन् पुल्लिङ्गवत् भवति खलु नपुंसकलिङ्गमपि अतः तस्य रथस्य इति भवति बेरीम् इति स्त्रीलिङ्गपदम् ईकारान्तस्त्रीलिङ्गपदम् तस्य षष्टी एकवचनं बेर्याः इति भवति तदनन्तरं हृदयम् अपि नपुंसकलिङ्गपदम् अतः हृदयस्य इति षष्टि एकवचनम् इन्द्रियाणि इति बहुवचनरूपम् इन्द्रियम् इति नपुंसकलिङ्गपदम् इन्द्रिया इन्द्रियाणि इति बहुवचनरूपम् अतः इन्द्रियाणाम् hmm. इति षष्ठी बहुवचनं भवति कुरुक्षेत्रम् इति एकवचनम् ऐ मीन् नपुंसकलिङ्गं तस्य बहु ऐ मीन् षष्ठी कुरुक्षेत्रस्य इति भवति जयम् इति नपुंसकलिङ्गं जयस्य इति षष्ठी एकवचनम् अत्र मम एकः मनसि सन्देहः किञ्चित् तत् जयमिति न पुष्पलिङ्गे अस्ति वा जयः इति पुल्लिङ्गय जयः इति पुल्लिङ्गिष्य जयः परा जयः परन्तु तत् विभक्तिरूपं समान एव दृश्यते आम् आम् धन्यवादाः अधुना अफ्रिकापतिमहोदय भवान् पठति वा अग्रिमे अग्रिमे कोष्टा कोष्टकात् उत्तितं पदं चित्वा वाक्यं पूरयत् प्रतिष्ठा प्रतिष्ठापनं प्र, उद्धाडयति तत्र उपरि आवली अस्ति तालिका अस्ति तत्र उपरि तालिका दृश्यते तत् तालिकायां शब्दाः सन्ति तत् प्रतिष्ठापनं सत्कारम् आह्वानम् उद्घाटनम् अर्जनं निबन्धं निब निबन्धनम् इति हा अत्र वाक्यानि सन्ति तत्र किं करणीयम् अत्र उद्घाटयति तत्र द्वारस्य उद्घाटनं सहकरोति तत् एवं तत्र, वार्णी, तत्र, वार्णी, तत्र उद्घाटनमिति शब्दः तत्र आगच्छति उद्घाटयति इत्युक्ते द्वारस्य उद्घाटनं करोति उद्घाटनम् इति शब्दः तत्र तालिकायाम् अस्ति तथैव द्वितीयं स्वीकृत्य वदति वा अधीतम् अद, अधीत अधीतं करोति तत् करोति अद, सत्कार्यम् अधी अधीतं करोति अतिथेः करोति तत् कथं भवति अतिथेः सत्कारं करोति मूलता तु सत्करोति इत्युक्ते सत्कारं करोति सत्कारं वीटिङ्ग् इति हा सत्करोति इत्युक्ते सत्कारं करोति अधुना सत्कारं करोति कस्य सत्कारं करोति अत्र आगच्छति षष्ठन्तपदम् अतः अतिथि गेस्ट् शब्दस्य षष्ठी का अतिथेः अतः सत्कारं करोति इति रूपम् अग्रिमे पठतु उद्यानं विभग् विद्ध्ना, विभग् विभज्ञानं करोति उद्याने न एकवारं पठतु उद्यानस्य निबध्नानि करोति उद्यान कुत्र अस्ति अश्वान् कुत्र अस्ति अश्वान् निबध्नाति उद्यानं नश्वान् अश्वानाम् अश्वानां निबन्धनं करोति हा उत्तमं तत्र अश्वानां षष्ठी निबन्धनम् बन्धनं निबन्धनं निबन्धनं करोति निबध्नाति इति सत्यम् अग्रिमे ध्वजस्य प्रतिष्ठापयति प्रष्टा तत्र पुनः एकवारं वस्तु ध्वजस्य ध्वजस्य प्रतिष्ठां करोति प्रतिष्ठापनं करोति अन् इति आगच्छति तत्र प्रतिष्ठापनं प्रतिष्ठापनम् इति अग्रिमे कीर्ते हे अर्ज अर्जयामि अर्जया... अर्जयाम् अर्जया करोति अर्जया, अर्जया, करोमि अर्जन कीर्ते षी अर्जन कौन अन छात्रे शत्रोन एक वरम पचो शत्रो आहवि आह्वान आह्वान आह्वान आह्वान आह्वानं तत्र आवयसि इति अस्ति आवयसि इत्युक्ते वदसि वदामि वदाव पठामः तत् वदसि इति अस्ति मध्यमपुरुष एकवचनान्तरूपं तत्र करोषि इति रूपं सहाय्यक्रिया तथैव भवति यदा आवस् आवयसि इति वदामः चेत् आह्वानं करोषि अस्त प्रतिष्ठापन कौतीय क्रिया तादी भव उद्घाटय उद्घाटन कौती पर आवयसी मूलत मध्यमुष एक अत आह्वानम कौशि तुर अतिथे अश्वा ध्वज से कीर्ते शो स्थल त्र शक्ति विभक्ति दृश्यते अस्तु धन्यवादः धन्यवादः भगिनी भारत पठति पठतिवा अवधेयं तत् आम भगिनि अवधेयं सङ्ख्यः दुत्राष्टं बोधयति कर्तुपदम् प्रथमाविभक्ति सञ्जयः तुतराष्ट्रं कर्मपदं द्वितीयाविभक्ति तु्रस्य बोधयति क्रियापदं बोधनं करोति ओर्बोधयति कर्तुपदं प्रथमाविभक्ति कर्मपदं षष्टिविभक्तिः क्रियापदं विभज्य लिखितम् विभज्य इयापदस्य विभागं कृत्वा यथा आकर्ष् आकर्षति आकर्षणं करोति निवेदयति निवेदनं करोति य वह पढ़ितवत सारांशेण तरम अवधेय सजय धृतराष्ट्रमकर्ता अस्ट कं बोधय धृतराष्ट्रम कर्मपदम बोधयती, कर्म कर... बोधयती क्रियापद यदा अहम क्रियापद विभजनं करोमि क्रियापदस्य विभज्य प्रयोगं बोधयति इति भवति बोधनं करोति तत्र अन् इति आगच्छति ल्युक् प्रत्यान्तरूपं बुध इति धातु बोधयति बोधनं करोति अधुना कर्मपदं यत् धृतराष्ट्रमस्ति तस्य षष्टिविभक्ति धृतराष्ट्रस्य बोधनं करोति अधुना सञ्जय धृतराष्ट्रं बोधनं करोति इति मा भवेत् किमर्थं कर्मपदस्य षि विभक्तिबोधयती विभाजन बोधनमती अतः तृतराष्ट्र धृतराष्ट्रम कर्मपद से ष्ठी विभक्तिभक्ति चेंजेस षि विभक्ति धृतराष्ट्र द्वितीया विभक्तनम ष्ठी विभक्ति मध्ये अतः धृतराष्ट्र बोधना कौती हा hmm. अना भारतमोद क भक्ति तत्तु सत्यं परन्तु सञ्जयः धृतराष्ट्र तु सर्वे जानीमः कौरवाणां पिता इति uh, To... Hmm. Uh... Hmm. तस्य समीपे तस्य समीपे का आसीत् दिव्यदृष्टिः दिव्यदृष्टेः सः सर्वं पश्यति स्म सर्वेषां घटनानां वर्णनं करोति स्म इति अस्ति hmm. खलु महाभारतप्रसङ्गे right. अतः hmm? yeah. वयं वदामः हिन्दीभाषायाम् आखो देखाः लिटि तत्र यत्किमपि तत्र वर्तते सर्वेषां तत्र रूपान्तरणं स्वशब्दैः सह धृतराष्ट्रं राज्ञा इति धृतराष्ट्र तु राजा आसीत् तद् धृतराष्ट्रं सः वदति इति सञ्जयः अस्तु अस्तु हा धन्यवादः धन्यवादः अग्रे राधाभगिनी पठति वा अधः लिखितानि वाक्यानि आं भगिनी अधः लिखितानि वाक्यानि यतोदाहरणं परिवर्त्य लिखित यथा एकनिमिषम् अधुना मम प्रश्न राधाभगिनी तत्र परिवर्त्य इति अस्ति तत्र प्रत्ययस्य विषये वदति वा आ, ल्यप्तयः ल्यत्यये द्वा प्रत्यये द्वयोः तत्र अर्थदृष्ट्या समानता परन्तु प्रत्यये कदा आगच्छति यत्र उपसर्ग अस्ति तथा परि इति उपसर्ग प्रिफिक्स् इति अतः तत्र ल्यत्यय परिवर्त्य योग्यं हा पठतु यथा एषः घटः घोषः हृदयं विदारणं करोति घोषः हृदयस्य करोति तत्र प्रथमे अध्याय अस्ति खलु सघोषधार्तराष्ट्राणां तत् विदारणं इत्युक्ते इत्युक्ते तत्र विदारनं Uh, पश्यन्तु तत्र प्रथमे अध्याये तत्र माधवपाण्डव इत्युक्ते कृष्णार्जुनौ तत्र तेषां शङ्खध्वनि अनन्तरम् अन्येषामपि शङ्खध्वनि श्रुत्वा धान्तराष्ट्राणां हृदयस्य विदा हृदयानां तत्र विदारणम् इत्युक्ते दे गोट् स्केर्ड् इति भावः तुमुलः mm. नादः okay. तत्र तुमुलः नादः अभवत् अतः तत्र ृदया हृदयस्य विदारणम् इति भयमभवत् मनसि भय किमर्थं परन्तु ते सर्वे दुराचारिणः hmm. दुराचारिणः तेषां मनसि भयः hmm. hmm. hmm. hmm. अतः कृष्णः रथः स्थापनं करोति कृष्णः रथस्य स्थापनं करोति hmm. वयम् इन्द्रियाणि कुर्मः वयम् इन्द्रियाणां प्रेरणां कुर्मः अर्जुनः गीतामृतं पानं करोति अर्जुनः गीतामृतस्य पानं करोति भीमः Hmm. Hmm. Hmm. Hmm. Hmm. एषः इन्द्रियाणि एषः कृष्ण कृष्णः योगी सर्वत्र ईश्वरः Hmm. नोगी hmm. पुन्यकृत, पुन्यकृत, पुन्यकृत पापं पापस्य अहं hmm. श्लोकस्य अनुवादं करोमि उत्तमम् उत्तमम् एतत् सर्वं क्रियापदानां विभजनं कथं भवति तस्य विषये अस्ति क्रियापदस्य विभज्यप्रयोग इति अस्तु तत् अधुना वयं कथां प्रति गच्छामः धन्यवादः धन्यवादाः एषा कथापि रोचका कथास्ति अस्ति अस्तु अगस्ट् महोदय भवान् आरम्भं करोति वा पठनस्य दरिद्रतायाः क्रान्तिः काश्चन दरिद्रः आसीत् एकनिमिष एकनिमिषं एक कृपया दरिद्रतायाः भ्रान्ति इत्युक्ते दरिद्रतायाः इत्युक्ते पावर्टि भ्रान्ति इत्युक्ते मनसि सन्देहः सम्भ्रमः मोह इति वक्तुं शक्नुमः कः योग्यः कः अयोग्यः सम्यक् ज्ञान ज्ञानं नास्ति इति भ्रान्तिः भवति इत्युक्ते भ्रमित् भ्रम् भ्रमावस्था इति भ्रमितः कश्चन तत्र दरिद्रीः अस्ति सः कीदृशः भ्रमितः इति वर्णनम् अधुना पठतु कश्चन कश्चन दरिद्रः आसीत् सः एकदाब्रहां लिङ्कन एकनिमिष दृश्यते अधुना दृश्यते सः एकदा अब्रहाम् लिङ्कनमहोदयस्य समीपं गतवान् सः हि वन्दे a uh, approaches to hmm. abraham lincoln abraham lincoln ah satyam hmm. uh, ah uh, abraham lincoln who was abraham lincoln mohadev ah uh, former president of m hmm, of the united states ah satyam ha aham yeah. aham bahu daritraha hmm. मम गृहं नास्ति धनं नास्ति धार्तुं वस्त्राणि अपि न सन्ति खादितुम् अन्नं नास्ति अतः किमपि ददातु कृपया सि श्री ham bahut dardah aham I, i am very poor mama griham nashti i don't have a house dadun have money idam nashti har tum astrani api nasanti i don't have clothes dad tum mitik to yukte धर्तुम् इति तत्र पश्यन्तु सर्वं खादितुं तुमुं प्रत्यय धर्तुम् इस् टु वेर् खादितुं फार् ईटिङ्ग् नथिङ्ग् फार् ईटिङ्ग् तुमुन् प्रत्यय धर्तुं नथिङ्ग् टु वेर् नथिङ्ग् फार् वेर, वेरिङ्ग् इट् इस् धर्तुं तत्र oh. धारण इति भावना धारणस्य कृते किमपि ददातु कृपया सो प्लीज़् किय सम्थिङ्ग् इति व इति वदान् वदन् कृतवान् सो रोदनं कृतवान् स्टार्टेड् क्रैम् इति बहु सम्यक् अद्य दिनस्य विशेषता अद्य अस्माकं कक्षायां भारतमहोदयः बहु सम्यक् प्रकारेण उत्तमप्रकारेण पठितवान् तथैव अगस्ट् महोदय उत्तमप्रकारेण यत्किमपि सः पठितवान् आसीत् तस्य उत्तमप्रकारेण स्वशब्दैः विवरणं दत्तवान् बहु सम्यक् हा बहु सम्यक् द्वयोः कृते धन्यवादाः अस्तु अग्रिमे गीताञ्जलिभगिनी भवती पठति वा तस्य वचनं ततः आरभ्य हा भगिनि तस्य वचनं श्रुत्वा लिङ्कन् महोदयः पृष्टवान् भवान् निश्चयेन दरिद्रः किम् इति अहम् असत्यं न वदामि हि आर् लिङ्क् महोदय् एनिथिङ्ग् दरिद्रः देन् हि सेट् ऐ डोट् सेल् लै असत्यं न वदामि सर्वदा सत्यमेव वदामि ऐ टेल् आल्वेस् ट्रूट् अहं दरिद्रः इत्यत्र नास्ति एव सन्देहः इति उक्तवान् दरिद्रः हि सेट् हि डजन् हेव् एनिथिङ्ग् भवान् दरिद्रः खलु अतः एवं करोतु यु आर् रैट् सो डु वन् थिङ्ग् भवान् स्वस्य हस्तद्वयं मह्यं ददातु you give your both hands to me hmm etat rite bhagini hmm. bhavate huh. laksha laksha huh. laksha dalar parimitam dhanam dashyami dashyami so hmm. hmm. uh 1 lakh dollars to you hmm sada bhavatah daridrata nivarita bhavishyati iti so your uh, your निवारिता भविष्यति स्वस्य हस्तद्वयं ददातु अहं लक्षडालर् धनं ददामि तेन दरिद्रता निवारिता भविष्यति दरिद्रता न अवशिष्यते करोतु एतत् सर्वं इति हा अग्रिमे अपि पठतु भगिनी इति इति लिङ्कन् महोदयेन उक्तम् हस्तद्वयं भवते दत्त्वा अहं कथं कार्यं करोमि गिविङ्ग् आफ्टर् टु हेण्ड्स् हौ केन् ऐ वर्क् तौ मम हस्तो दोस्तु हेण्ड्स् आर् वेरी वेल्युबल् तौ दातुं न शक्नोमि इति दरिद्रः उक्तवान् ऐ कान् गिव् देम् दरिद्र इत्युक्ते हस्तद्वयं दत्त्वा लक्षडालर् परिमितं धनं स्वीकृत्य सः दरिद्रः तत्र सः अनुमतिं दत्तवान् हा हस्यद्वयं ददातु लक्षडालर् धनं इति प्रस्तावः लिङ्कन् महोदयस्य परन्तु दरिद्रः तस्य कृते अनुमतिं न दत्तवान् किमर्थम सः उक्तवान् मम अमूल्यहस्तौ तौ द्विवचनं मम अमूल्य मम षष्ठी अमूल्यहस्तौ इति द्विवचनं हस्तौ द्विवचनं तौ दातुं न शक्नोमि इति दरिद्रः उक्तवान् अस्तु अधुना अग्रिमे किम् अभवत् पश्यामः अम्बिकापतिमहोदय पठति वा तदा लिङ्कन् महोदय तदा लिंगन लिङ्गन्महोदय उक्तवान तर्हि भवतः पादद्वयं ददातु द्विलक्षण लक्षडालर् मरि मरिमितं तालस् परिमितं धनं दास्यामि इति लिङ्गन्महोदयस्य वचनानि श्रुत्वा दरिद्रः आदङ्गेन वदति आर्य तत्रिहेवियर् आतङ्केन इति उक्तवान् आर्य आर्य किं वदति भवान् यदि पादद्वयं ददामि तर्हि कथं चलामि भवान् दशलक्षण लक्ष डालर् परिमितं धनं ददाति hmm. चेत् अपि अहं दातुं न शक्नोमि hmm. आदौ मम अमूल्यौ इति उक्तवान् hmm. hmm. लिङ्गमहोदयस्य पुनः उक्तवान् hmm. महोदय भौनः उक्तवान् भवान् hmm. हस्तद्वयं दातुं न शक्नोति hmm. पादद्वय पादद्वयमपि दातुं न शक्नोमि खलु खलु शक्नोति खलु कथं जीवे जीवेय अधुना अधुना एतावत्पर्यन्तं किं hmm. hmm. hmm. दत्तमस्ति स्वशब्दैः प्रयत्नं करोति hmm. वा hmm. hmm. पादद्वयमेव मूल्यं बहु मूल्यं इति सः उक्तवान् किमर्थम् अहं चलति इति किमर्थम् अहं चलामि अनुं तदहं किमपि कर्तुं न कर शक्नोमि अधुना पश्यतु पादद्वयस्य कृते द्विलक्ष डालर् परिमितं धनम् अधुना सह किं वदति दशलक्षडालर् परिमितं धनमपि ददाति चेत् अपि अहं mm. दातुं न शक्नोमि तत्र पादौ अमूल्यौ हस्तौ अपि अमूल्यौ तस्य समीपे पादद्वयं हस्तद्वयम् अमूल्यम् mm. इति परन्तु सः वदति अहं दरिद्रः इति अधुना तस्य मनस्थितिः कीदृशी वदति दशलक्ष दशलक्षडालर् अपि अहं न इच्छामि मम पादौ तु अमूल्यौ इति अमूल्यौ स्तः पादौ मम अमूल्यौ स्तः इति वदति हा, हा। एतावत्पर्यन्तं योग्यम् उत्तमं स्या अमेकापतिमहोदय धन्यवादः अग्रिमे जयन्तीभगिनी अग्रिमे पठति वा हा ना, भवतु नाम निङ्कन्महोदयः ना पुनः उक्तवान् हा लिंकन महोदयः पुनः उक्तवान् hmm. स्क्रीन् न दृश्यते भगिनी एक न दृश्यते अधुना एव इदानीं दृश्यते लिङ्गन् महोदयः पुनः उक्तवान् भवान् हस्तद्वयं दातुं न शक्नु शक्नो शक्यो शक्नोति पादद्वयमपि दातुं न शक्नोति खलु भवतु hmm. नाम सारी लिङ्गन् महोदयः पुनः उक्तवान् भवान् भवान् हस्तद्वयं दातुं न शक्नोति पादद्वयमपि दातुं न शक्नोति खलु भवतु नाम भवतु नाम भवतः नेत्रद्वयं ददातु तन्निमित्तम् अहं भवते चतुर्लक्ष लक्ष परिमितं धनं दास्यामि ते भवान् सुखेन जीवितुं शक्यति इति शक्य लिङ्गन् महोदयः पुनः एकवारम् एक अङ्ग अङ्गस्य अङ्गं पृष्टवान् ददातु पा पादद्वयमपि न दातुं शक्यते ऐ मीन् हस्तद्वयमपि दातुं न शक्यते खलु इदानीम् ददातु अहं लक्ष चतुर्लक्ष डालर् परिमितं धनं भवन्तं दास्यामि इति लिङ्गन्महोदय उक्तवान् ऐ mm. मीन् um, uh, uh, uh, I mean, uh, लक्ष चतुर्लक्ष डालर् uh, परिमितेन भवान् सुखेन जीवितुं शक्यते खलु इति mm. उक्तुत्वा mm. mm. कुपितः दरिद्रः तं बहु दर्जितवान् Uh, hmm. एतह दरिद्रः तस्याः वचनं श्रुत्वा बहु कुपित् कु, कु, कु, कुपितेन तं लिङ्गं दर्जितवान् <देना>, क्रोधेन <कुदेना>, क्रोधेन <देना> क्रोधेन <ना, देना> दर्जितवान् hmm. hmm. एवम् उपहासं आ, उपहासं कुर्वन् भवान् मां मूर्घं मन्यते इति hmm. आ, एवं ऐ I मीन् mean, um, उपहासं कुर्वन् भवान् uh, मां मूर्घः इति मन्यते वा अति इति पृष्टवान् दरिद्रः एकवारं हस्तद्वयं ददातु इति वदति एकवारं बैजि नेक्स्ट् पेज एतानि मूल्यानि एकविंश न एकवारं हस्तद्वयं ददातु इति वदति पुनःद्वयम् वेनिता तद् अहं न दृ द्रष्टुं शक्यते तत् श्रुत्वा इति दृश्यति वा श्रुत्वा कुपितः दरिद्रः इदानीं दृश्यते अहं मोबैल् मध्ये एव पठामि अतः मां सम्यक् दृश्यते तत् श्रुत्वा कुपितः दरिद्रः तं बहु दर्जितवान् एवम् उपहासं कुर्वन् भवान् मां मूर्घं मन्यते एकवारं हस्तद्वयं ददातु इति वदति पुनः पादद्वयं ददातु इति वदति अनन्तरं नेत्रद्वयं ददातु इति वदति नेत्रदत्ते चेत् अहं कथं इति दरिद्रः वदति भवान् लिङ्गमहोदय प्रति दरिद्रः पृच्छति अहं भवान् माम् मूर्घम् मन्यते किम् एकवारं हृदयं हस्तद्वयं ददातु इति वक् उक्तवान् एकवारं पादद्वयं ददातु इति उक्तवान् अनन्तरं नेत्रद्वयं ददातु इति उक्तवान् नेत्रविना अहं कथं जीवामि कथं पश्ये पश्यामि इति दरिद्रः वदति मां मूर्खं मन्यते किम् इत्युक्ते कि मन्यते इति धातु भगिनी मन्यते रूपं मन् दातु रूपं पुरुषः वचन मन्यते आत्मनेपथ्य दातु प्रथमपुरुष एकवचनं मन्यते इति दिवादिगण अतः तत्र य आगच्छति मूर्खं मन्यते इति मनु अनुबोधने मन्यते इति अहं मूर्खं वा इति भव चिन्तयति वा इति सः वदति एकवारं नेत्रम् नेत्रद्वयम् mm. एकवारं पाकद्वयम् एकवारं हस्तद्वयम् mm. mm. mm. उत्तमं सम्यक् mm. महोदय कथं जीवेयं धनार्थं मम अङ्गानि कथं जीवे जीवेयं कथं mm. जीवेयं धनार्थं मम mm. अङ्गानि दत्त्वा अहं पराधिनः भवितुं न इच्छामि mm. कोटि परिमितं धनं ददाति चेदपि अहं भगवता दत्तानि अमूल्यमूल्यानि अंगानी न ददामि इति कोपेन आक् आक्रोशनं कृतवान् दरिद्रः mm. दरिद्रः says that uh, uh, dhanartham st mama ang angam hi uh, na tatwa na dadami iti na -da atra uh. aham aham is, uh, uh, ah aham paradinah aham paradinah itupte kim ah paradin means uh um पर बीजा दूसरे दूसरे आधारित हा सत्यं सत्यं सत्यं वा एकनिमिषं शक्नम् एकनिमिषम् एक हलो एक क्षम्यताम् पठति वा हा भवान् वदति वा तत्र पराधीन इत्युक्ते किं तत्तु भवान् भवान भवान् कोटिपरिमितं धनं ददाति चेत् अपि अहं भगवता दत्तानि अङ्गानि अमूल्यं ददाति चेत् अहम् अमूल्यानि अङ्गानि न ददामि न ददामि अतः कोपेन आक्रोशनं तत्र आक्रोशनम् अद्य एव वयं पठितवन्तः खलु अन इति आगच्छति आक्रोशनम् इति नाम इति भवति आक्रोश् स्क्रीमिङ्ग् सार्ट् आफ् थिङ्ग् कोपेन इत्युक्ते क्रोधेन राधा राधा धन्यवाद भारत पठति लिंकन ृणोतु तानि सर्वाणि अङ्गानि अत्यमूल्यानि इत्यतः तानि दातुं निराकृतान् भवान् यद्यपि एतानि अमूल्यानि सद्दृनि अंगानी प्राप्तानि भवता तदापि अहं दरिद्रः इत इति किमर्थं वदति भवान् लिंकन महोदय वदति तस्य तस्य सर्व अङ्गानि अमूल्य इति भव भवान् वदति अत्र एकनिमिषं वदामि एकनिमिषम् एकः अंशकेवल अत्यमूल्यानि इत्युक्ते अति अमूल्यानि अति अमूल्यानि अति इति वेरि वेरि आम् आम् अति अमूल्यानि तस्य मूल्यं कर्तुं न शक्नोति इति अमूल्य तत्तु अति अमूल्य इति वदति तस्य अङ्गानि अति अमूल्य अस्ति ते दातुं न शक्नोमि शक्नोति इति यदि तस्य कृते तस्य अमूल्य अमूल्य अङ्गानि अस्ति अस्ति तर्हि mm. भवान् दरिद्रम् एतत् किम् अभवत् mm. why are you calling yourself poor when you have such invaluable ah kim madati bhav jis jesus drudha ki kathaapi aham daridrah mama samipe kim vinash te dhanam nasti evam nasti kimartham hm bhavan agrim ek kim madati agrim mein api vakya dvayam trem padhatu dev ji bhavan bhavan jashya prapanchasya कश्चन दृढकायः आरोग्यवान् जनः स्मरतु एतत् तेषां सदुपयोगं चिन्तयतु दृढकाय आरोग्यवान् जन भवान् यु आर् हेल्दि पीपल् आफ़् द युनिवर्स् भवान् आ प्रपञ्चस्य दृढ आरोग्यजनाः आसीत् दृढकायः अस्ति यु आर् वेरि स्ट्राङ्ग् स्ट्राङ्ग् रैट् स्ट्राङ्ग् बाडि सामर्थ्यवान् सामर्थ्यवान् इति स्मार्ट् एण्ड् स्ट्राङ्ग् रिमेम्बर् द स्मरतु एतत् तेषां सदैवं चिन्तयतु मेक् गुड् यूस् आफ् देट् तथा तता करोति चेत् भवान् कश्चन महापुरुषः अपि भवितुम् अर्हति चिन्तयति भवान तर्हि महापुरुषे इफ् यु थिङ्क् लैक् दिस् यु केन् बिकम् अ वेरि बिग् मेन् सत्यं महान अत्र विचारः अत्यन्त प्रगल्भः महान् इति महान् विचारः इति वक्तुं शक्नुमः वयं सर्वे अब्राहम् लिङ्कन् महोदयः इति महापुरुषः सः महापुरुषः आसीत् इति वयं सर्वे वदामः परन्तु तस्य विचारः दरिद्रस्य प्रति कथं तत् दरिद्रं किं वदति स्म इति हा अस्तु अग्रिमे धन्यवादः दा, दा, राधा भगिनी आगस्ट् महोदय धन्यवादः आगस्ट् महोदय अग्रिमे पठति वा इत्येदा इत्येतावद् यदा तथा आरभ्य इत्येतावत् यदा उक्तवान् hmm. तदा ध्याटिति सः hmm. दरिद्रः hmm. लिङ्क्महोदयस्य हस्तद्वयं गृहीत्वा क्षमा क्षमां याचन् उक्तवान् hmm. कृपया माम् कृपया मां क्षम्यतु क्षाम्यतु इति क्षा क्षाम्यतु मम समीपे एतानि अमूल्यानि वस्तूनि सन्ति इति एतावत् पर्यन्तं मया न एव आसीत् hmm. तेषाम् अमूल्यता भवता दर्शिता hmm. hmm. अहम् hmm. इदानीम् आश्वास् आश्वासनं ददामि यत् hmm. इतः परम् अहं भीक्षयाचनं न करिष्यामि इति hmm. hmm. परिश परेश्या, परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करो करोमि अहं hmm. न द्ररिद्रः इति धैर्येण सर्वेषां पुरतः वदिष्यामि इति hmm. वचनानि श्रुत्वा लिङ्क लिंकन्... लिङ्कस्य मुखे तृप्ति बहवः मन्दहासश्च प्रसिद्धः किमभवत् hmm. uh the the woman uh uh gives his his ex excuses mm hm because he recognizes mm hm that he he have the the capacity the members and then the capacity To, hmm. Ah, I didn't understand everything but I think that it that this is the general idea. Hmm, hmm, hmm. Setting. Ah, maya na jnatameva iti saha vadati. It tube itavat paryantam maya na jnatam. It was not understood by me. Ah, apsham amulyata bhavata darshita. Itte तेषाम् अमूल्यता तेषाम् इन्द्रियाणां मम अङ्गानाम् अमूल्यता भवता दर्शिता यु गेव् मी देट् इन्सैट् यु गेव् मी देट् विजन् अहम् इदानीम् आश्वासनं ददामि आश्वासनम् इत्युक्ते किं महोदय प्रोमिस् इति सः आश्वासनम् इति प्रोमिस् इतः परम् अहं भिक्षायाचनं न करिष्यामि मम अङ्गानि अमूल्यानि इति अहं ज्ञातवान् मम अङ्गानां मम इन्द्रियाणाम् उपयुज्य अहं कार्यं करोमि भिक्षायाचनं न करिष्यामि अहं दरिद्रः इति न वदामि परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि सार्थकम् इत्युक्ते फुल्फिल्मेण्ट् श्रमेण कार्यम कर हाडवर्क पिश्रम अहम न दरिद्री धैर्े व्याट पुअर्दिष्या भविष्य वचना शुवा लिंकन से मुखे तृप्तिभा मंदहायच प्रसृतः तृप्ति इत्युक्ते सेटिस्फेक्षन् इति स्पष्टमस्ति सर्वेषां धन्यवादः धन्यवादः अधुना वदतु कथायाः विषये यस्य कृते सर्व यस्य कृते सर्वाणि अङ्गानि ऐ मीन् इन्द्रियाणि स दृढतया सन्ति सः एव धनवान् भवति भगवन्त तत् इदं शरीरम् एव अमूल्यद्रव्यं भवति इदं शरीरं उपयुज्य वयं सर्वे अस्माकं कर्म लौकिकेन वा परलोके वा विमोक्षणं प्राप्नुमः कर्मणा कर्मणा विमोक्षणं प्राप्नुमः मृष्टिमपि प्राप्नुमः अस्माकं समीपे यत् अस्ति तस्य अमूल्यता वयं न जानीमः इति खलु वयं सर्वे एतादृश तत्तु सः तु दरिद्रः धनं न आसीत् एव परन्तु बहुवारम् अस्माकं चिन्तनं भवति ओ मम समीपे एवं नास्ति मम समीपे तत्तु अपि मम समीपे भवेत् चेत् वरम् इदानीं तत् नास्ति परन्तु यत्किमपि अस्माकं समीपे अस्ति तस्य मूल्यं किमस्ति तत् वयं न जानीमः तस्य विषयस्य अवगमनं सम्यक् कृत्वा दृढकाया इति का विशेषता तस्य इति तथा एवं खलु सत्यं सम्यक् धन्यवाद जयन्ति भगिनी अग्रिमे तत् मम समीपे सुदृढशरीरम् अस्मि अहं कार्यं कार्यं करिष्यामि अहं कार्यस्य कृते सक्षमः सक्षमः ऐपेबल् आफ् डुयिङ्ग् वर्क् उत्तमं सत्यम् अन्यकोपि राधा भगिनी रमाभगिनी तु वक्तुं <coughs> न शक्नोति इति उक्तवती राधाभगिनी अम्बिकापतिमहोदय गीताञ्जलिभगिनी भगवान् बहु अमूल्य अंगानी दत्तमस्ति अतः दिक्षां कर्तुं न भिक्षायाः किमपि कारणमेव नास्ति भिक्षायाचनां न भिक्षायाचना न करणीया इति सत्यम् अत्र पश्यन्तु सर्वे कथायाम् अब्राहम् लिङ्कनमहोदयस्य का विशेषता दृश्यते तस्य चिन्तनम् तस्य चिन्तनं सत्यं तस्य चिन्तनम् अतः एव सः महानः महापुरुषः इति वयम् अधुनापि वदामः खलु अब्राहम् महोदयस्य प्रति अस्माकं मनसि आदरभावना तस्य चिन्तनस्य कृते सत्यं योग्य गीताञ्जलिभगिनी भवती वदति वा भवती अपि एक पुनः एकवारं वक्तुं शक्नोति वदतु एव्रिथिङ्ग् मीन्स् सर्व अङ्गानि अमूल्य अस्ति सर्वाणि अङ्गानि सर्वाणि अमूल्यम् अस्ति तत् उपयोगं कर्तुं कार्यं कुर् कुरुतः कुर्वा कुर्वाणि कुरुतः वयं कार्यं कुर्मः इति कुर्मः तत्र कप् एम् ट्रैङ्ग् टु टेलिन् संस्कृत् भगिनी कप वदतु चिन्ता मास्तु वदतु न रोदनं करोमि सत्यम् we we We don't have, should should not cry. We should put all effort to uh -huh. work hard. अस्तु इत्युक्ते अस्माकं समीपे यत् किमस्ति तस्य उपय उपयोजनां कृत्वा वयं कार्यशीलाः भवामः कार्यप्रचुराः भवामः इति बोधः अस्तु अन्यकोपि वक्तुमिच्छति वा नो चेत् वयं समापयामः अस्तु धन्यवादः भगिनी अम्बिकापतिमहोदय शान्तिमन्त्रेण समापयामः वदति वा शान्तिमन्त्रे स्वस्तिप्रभाज्य परिपालयन्ताम् न्यायेन मार्गेण गोब्राह्मणेभ्यो शुभमस्तु नित्यम् लोका समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः हरिः ओम् तत् श्रीगुरुभ्यो नमः हरिः ओम् तत्र कुतः मन्त्रम् भागवत श्लोकस्य मङ्गलवचनं बहु सम्यक् बहु सम्यक् महोदय धन्यवादः भगिनी लास्ट् लास्ट् सेशन् इस् नाट् द रेकोर्डिङ्ग् इस् ऐ केनाट् एक्सेस् देट् वन् देर् इस् सम् कैण्ड् आफ् एरर् इस् कमिङ्ग् एवं वा अहमेकवारं पश्यामि तत्र अस्तु थर्ड् सप्टेम्बर् इति न अहमेकवारम् अन्वेषणं करोमि महोदय अहं गणे प्रेषिष्यामि एकवारं पश्यामि हा अस्तु सारी भगिनी क्षम्यताम् अम्बिकामति अम्बिकापतिमहोदय एतत् शुद्धम् एव खलु ऐ मीन् भागवतस्य मङ्गलवचना मङ्गलश्लोकमस्ति खलु तत् प्रत्या परिपालयन्तां न्यायेन मार्गेण महिमहीषा अस्तु भगिनि महोदय क्षम्यतां भवान् भवती ऐ मीन् नीतबेणी पृष्टवती अहमेव उत्तरं दत्तवती सारी